सत्यम् प्रपद्ये ऋतम् प्रपद्ये अमृतम् प्रपद्ये प्रजापदे प्रियाम् तनुभुमनाः काम् प्रपद्ये इदमहम् पञ्चदशेन वज्रेण विहन्तम् भ्रातव्यमवकामामि यो हस्मान्द्वेष्टे यञ्च वयम् दुष्मः भोद्भुवसुवः हेम् प्रभोवाजाभिद्यवः हविष्पन्तोघृताच्या देवाञ्जिकादिसंनयोः अग्नायादिवीतये घ्राणो हव्यतातये निहोता सत्यपरिगषे हन्तासमिद्भ्यरङ्गिरः घृतेन वर्धयामसि रहक्षोचार्यवृष्ट्या स नः पृथः श्रय्यम् हच्छादेव विवासते बृहदग्ने सवीर्यम् एरेण्यो नमस्य स्थिरः समविजीर्थ्यते वृषाः अग्निः समिध्यते अश्नो न वाहनः तरुम् हरिष्मन्तकीरदे पृषणन्ता वयम् पृषण् विषाणः समिधेमहे अग्ने अजीत्यलम् मृषदे अग्न्यम् दोदम् विणेमहे होतारम् विश्ववेदनम् अस्य यज्ञस्य सुकृदम् समिध्यमानोऽध्वरे अग्न्यः पावकजीर्त्यः समेध्वा अग्नाहुतस्वध्वरम् आजुहस्य अग्निम् प्रयत्यध्वरे अग्ने वाहम् बध्जन्ति मतभिर्मष्ठाः त्वे पशुसृढनाय सन्तो योऽयम् पादस्वस्ति व्यस्तदानः अग्ने महागुम्हसि ब्राह्मणभारता असावसोः देवे सोमन्विद्धः त्रेष्ठतोप्राकितः कविशस्तो ब्रह्मजगुंसितोज्ञानाम् आस्तात्रम् जहोर्देवानाम्नः परागम्यवृष्टं आवहदेवानयजमानाय अग्निमग्न आवः सोमावः अग्निमावः प्रजापदिमावह अग्नेशोमावह इन्द्राग्नेयावः इन्द्रमावह महेन्द्रमावह देवागम् आज्यमागमावह अव्यगम् होत्रायावः स्वं महिमानमावः आचारेवानवः जयजागवेदः अव्यजहो दावे पग्नेः होत्रम् वे तु प्रावित्रम् स्म वयम् साधुते दे यजमान देवता भगवते दे मध्वर्योऽस्तु नमास्य स्वा देवायमम् विश्वमारामहे देवायम् येऽन्यान् दे नमस्याम नमस्यान् यामयज्ञियान् अग्स्य वियम्बालग्नाद्यस्य वेतो इडो अग्निहाद्यस्य वियन्तु तर्हि अग्नराज्यस्य वेदो स्वाहाग्न्यम् स्वाहा सोमम् स्वाहाग्न्यम् स्वाहा त्वाग्य। प्रजापतिम् स्वाहाग्ने सोमो स्वाहेन्द्राग्ने स्वाहेन्द्रम् स्वाहा महेन्द्रम् स्वाहा देवागम्मा जपान स्वाहाग्निगमहोत्राद्युषाणाः अग्निरा शनते दविणस्विपन्याध शुक्रहुद्णो अग्निराज्य वेद सौ माध्यसपतिगुराजवत भद्रिक्रुह जषाणस्व महाराज से हमजा वेद अग्नपत्रेण जन्म शुंभान तनुभ्यस्वा कबल विप्रेण वाधे विषाणो अग्निराज्य वेद सोमकेऽर्भिष्पादयम् महाराज्ञस्य हविषोगेतोपृथिव्या अयम्मदे भुवो यज्ञस्य नेता यत्रा नेर्भ्य शिवाभिः दिविमोर्धानन्दजेतुमग्नेजगकृतेहव्यवाहम् प्रजापतेनत्वलेतान्यः विश्वा जाता विपरिताबभूव यत्कामास्तेजुमस्तन्न अस्तुभ्यस्यामपजीनाम् सवेदपुत्रसभुरत्मनर्मखः सद्यामोन्नरिक्षंसुवः सविश्वाभुवाभवत्सवेषो मासवेदः सहो जीवनरङ्गिणः सन्देहत्राभोवसुः इवमेतानि यमिलोचनानि अग्नित्रतो मदक्रतो अशरतम् इवगम् सन्धोगम् रवितस्तैरपद्यान् अग्नेशो भावमुभेदान् इन्द्राज्ञे लोचनादिवः परिवाजेषु फोटसः तद्वाञ्च विप्रवेर्यम् श्यषद्वित्रमुदसविवाजम् इन्द्रायो अग्नेतैतपर्यान् यद्गन्तासव्यस्य भूरेः सहस्तमाशदावादियन्ताः येन्द्रदायम् श्रेत्तानकंसदासहम् इन्द्राफलदक्षिणे नासौने पतिसिन्धो नापतिरेवना महाम्यन्दवयवोचसा पर्जन्यागम् इव सोमेन वत्सस्य वार्धे आगम्यन्द्रो निपदाचर्षः विपदः मिनः सहाभिः वीर्यायः पुत्रस्वृतकर्तृभिप्रेः देवागम् पुषगोयविष्ठा विद्वागम् मृदोगमेव्याभिरग्ने अस्यायजः अज्ञशिष्टकृतम् अयादज्ञरज्ञे प्रिया सामाने अयाक्सामस्य प्रियाधामानि अयाज्ञः प्रियाधामानि अयाः प्रजापदे प्रियाधामानि अयाज्ञे शमया प्रियाधामानि अयान्द्राज्ञया प्रियामानि अयान्द्रस्य प्रियाधामानि अयान् प्रियाधामानि अयाः देवाना महाजपानाः यक्षदग्नेयाम् महिमानम् आयजतामेऽध्यायुषः कृणोदसोहध्वराजादवेदाः द्विषदागुम्हवेः विश्वाध्वरस्य होतः पावकसो जगेभ्यज्वाः कृतायजामहिनावहयविच्चयाच्या उपहोदगम् रसन्नम् न हिव्या उपमा रहन्धरम् रह्याह्वयताम् बभूदम् वामदेव्यगम् सहान्तरिक्षेण उपमा वामदेव्यगम् सहान्तरिक्षेण हयताम् बहूदम् बृहत्सः दिवा उपमा बृहत्सः दिवायताम्बोदासप्तहो मात्राः उपमा सप्तहो मात्राः आह्वयन्ताम्स्तः क्षः सखाः उपमा भक्षः सखाः उपहूता हो इडोपहूता उपहूतेण उप अस्माकम् यडाः प्लयताम् इडोपहूता उपभूतेणाः मानवे धनवये मेत्रावरुणे ब्रह्मदे अवगतमुपहूतम् देव्या गो ध्वैर्यमबहूताः उपभूतामनुष्याः मै यज्ञमवारे हे यज्ञपतिम्बद्धाने उपभूते वा पृथिवी भूर्मदेवरी हे वे देवपुत्रे उपभूतमयञ्जमानः उत्तरस्याम् देवयज्ञायामुपहूतः भोजह विष्करणमुपहोतः दिव्यधामन्युपहूतः ग्रन्मे देवा विद्युषन्तापि निजस्मिन्नुपहूतः विश्वमस्य प्रियमपहूतम् विश्वस्य प्रियस्योपहूतस्योपहूतः एवम् बलिः असुपने मधुधेयस्य वेतो एवो न राजवंशः असुपने मृधेयस्य वेतो एवो अग्निस्मित्के सुद्रविना मन्द्रः कविः सत्यमन्मा इदी होदाः अग्नेयान् हो हो देवानयान् भिप्रेयः एते होत्रे अवत्सतांसे होत्राहम् यज्ञमेव नमो वागेवी विदन्द्या वा पृथिवी भद्रमभूत् आत्मसोक्तवाकम् उदनमो वाकम् वृद्ध्यात्मसोक्तोक्षमग्ने प्रपुंसो भोक्तवाके उपश्यतोपृथिव्याः होमन्वदेतवेस्ताः सङ्गय गीलानो अत्र स्मोह अप्रवेय मृगव्योगे अभयङ्कृतो दृष्टिव्यावादेत्या वा भुवो होजस्पदे च वयस्पदे चोपशरणाचरणाय तयोराविरे अग्निरगम् अवेव सदमहोध्यायो कृता सोम इदगम् हविरजषत अवेव सदमहोध्यायो कृता अग्निदगम् हविरजषत अवेव सदमहोध्यायो कृता प्रजापतिनगम् हविरजषत अवेव सदमहोऽध्यायो कृता अग्नेसामामिदगम् हविरजुषेताम् अवीर्धेताम् अवीवधेताम् महोज्यायोः कृताम् इन्द्रगिरगम् अविरजुषत अवीवसतमहोज्याय कृता महेन्द्रगिरगम् हविरजुषत अवीवसतमहोज्याय कृत देवाज्यवाज्यवजुषन्त अवीवसन्तमहाज्यायोः कृता अग्निमहोत्रय नेतम् हविरजुषत अवीवसतमहोद्याया कृत अस्याम् सद्भावत्रायाम् देवङ्गमायाम् आशास्ते नियजमानोऽसौ आयुराशास्ते स्वप्रजास्तमाशाः प्रजातमनस्यामाशास्ते उत्तराम् देव यज्ञामाशाः भोज हविष्करणमाशास्ते दिव्यन्धामाशास्ते विश्वम् प्रियमाशाहस्तेन हविषाः तदश्चा तदध्यात् तस्मै देवाना सन्ताम् देवेभ्यो भनत् अयमग्रेर्मानुषाः दे इष्टम् च वेदम् च उभेषा वा पृथिवी अगौहरस्तानाम् एकदर्भावस्येदम् च नभो देवेभ्यः तच्छञ्यो यावणेमहे गातम् यज्ञाय गातम् यज्ञपदये देवी स्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ओर्ध्यञ्जिगाजुभेषजम् षण्णो अस्तु विपदे षञ्चदुष्पदे आप्यायुष्पसन्ते इहत्वष्टारमग्रियन्तम् न स्तु देवम् देवानाम् पत्नी विशदीरवन्तु नः वावन्तु नस्तु जेवायुधादये या पाद्यवादो या अपामविपदे तानो देवे सुभाशर्म यच्छता उतज्ञाभियन्तदेव पत्नेः इन्द्रान्यग् यक्ष्मिनीरादेवे दुर्जनीनाम् अज्ञता गृहपतिः स राजाः विश्वावेदीराजाजवेदाः देवानाम् उदरामृत्यानाम् निश्च प्रयोजतामृता वायमुत्पादृहपते जनानाम् अग्ने अकर्म सविधा अस्थोरिणाकारिकपत्या विसन्तो न स्तेजतांसि उपहोदयम् वसन्तरगम् सह पथिव्यासन्तरकम् सह पथिव्याह्वयताम् उपभूतम् सहान्तरिक्षेण उपमा वामदेव्यम् सहान्तरिक्षेणम् बृहत्सह दिवा उपमा बृहत्सह दिवाह्वयताम् बहूदाः सप्त उपहासप्तहात्राः क्वयन्ताम् उपहोदाधेनस्स हरिडभा उपहाधेनस्थारिडभा क्वयदाम्भक्षस्सखा उपवा भक्षसखाक्होदास्माकम् यडाः क्वयदाम् इडो बहोदा उपहोते मानवीकृतवदे मैत्रावरुणे ब्रह्मदेवकृतमुपहूतम् हैर्याध्वर्यवहोदा उपहूता मनुष्याः ये मयि यज्ञमवान् ये यज्ञपत्नीम् वर्धान् उपहूतेव्या वा पृथिवी पूर्वजे रतावरी देवी देवपुत्रे उपहूतेऽयजमाना इन्द्राणी वा विसवान् अतिजयमधुपुत्रा उत्तरस्याम् देवयज्ञायापभूता भोगशिहविश्रणोपभूता दिव्येधामन्नुपभूता इदम् मे देवान्तास्मिन्नुपभूता विश्वमस्याप्रियमुपभूतम् विश्वस्य प्रियस्योपभूतस्योपभूता ओ अञ्जम् दिक्त्वा मत्फले देवयन्तः अनस्पदे मधुना दैव्येन यतोर्ध्वस्तिष्ठा द्रविणे अधत्तात् यद्वाक्षयो मातुरस्या उपस्थे उच्छयस्वमनस्पदे वष्पन् पथिव्या अधि सुमिति मीयमानः प्रत्योधारज्ञवाहसे समिद्धस्य श्रयमानः पुरस्तात् ब्रह्मवन्दाणो अजरकम् सुबीनम् आरे अस्मदपतिम्बासवानः उच्छयस्वमहते सौभगाय तिष्ठा देवो नोर्ध्वायस्य सविताय सन्दिभिः पाठच्छमहे ओर्ध्वा नः पाठ्यमोहतोकेतुनात्रिनन्दः कृतेन वोर्ध्वाञ्जलसाय जीवसे पिता देवेषु न मधुमह जातोनत्वे अह्नाः स्वमर्यावितमानः पुनन्तिधीरा अमतो मनीषः देवयादि प्रभुधिरतिमाकम् युवासुभासाः परिवेदात् स्वश्रेया भवयमानः गन्धेरा कवय उन्नयन्ते स्वाभिया मनसादे वयन्तः सुपाजामत्यः हृदयस्वाहुतः अग्नियज्ञस्य हव्यम् सपासो यदस्वितः युत्साधिया यज्ञवन्तः आचक्ररग्निमहोदये तम् वर्णमुदमित्र अग्ने त्वाम् वर्धन्ति मतिभिरवधिष्ठाः देवसुसृढणानि सन्तो यूयम् पादस्वस्तिभिः सदाः होदायक्षरज्ञयम् समिधातु समिधातुमिभा पृथिव्याः सङ्गथे रामस्य पशन्दिष्पदेवेत्त्वा राज्ञस्य होदर्यज होदायक्षत्तमो नपादमतिधेगम् देवो देवे द्वौ देवयानाम् अथो अनक्त्वे त्वाद्यस्य होदर्य पोतायक्षन्नराधकुं हो सन्द्रहचन्द्रे गः प्रणेत्रम् गोभिभान् स्याद्भेदैः शक्तिर्भयः प्रथमया वार्या भाहिरण्येश्चन्द्रेवेत्वाद्यस्य होतर्य हो पोतायक्षग्नि देवो आरक्षद्धोतो हव्यमुपेमाम् देवो देवहोतिम दुवेत्वाद्यस्य होदर्यज होदायकद्वरिः सुष्ठेवोर्णम् वदामि यज्ञे विषप्रजप्नसरागस्वारस्थम् देवेभ्यः एव सत्यवसमो रुद्राः यज्ञास्वन्द्रप्रियमिन्दस्यास्तुवेस्य होदर्य भवता यक्षद्वनिष्पार्कवश्योको विधापनेदाताभिर्दिगताम् विपक्षाभिश्रयन्ता स्वप्रायणा अस्मिनि यज्ञेऽभिश्रयन्तायन्दाद्यस्य भोतायक्षत्रै व्या होतारा मन्द्रापोतारा नवीप्रदेशसा शिष्टमद्यान्यकरविता स्वभिगोत्तमन्यभोर्जापदमशैमैल्यज्ञम् दृढदेवेण धत्ताम् गीतामाद्यस्य होतर्ज होतायक्षतिस्त्व देवेरपसा मस्तमाच्छिद्रपद्यैरमपस्तन्वताम् देवेभ्यो देवे देवमाग्रियन्ताद्यस्य होतर्जिण होदायक्षत्वष्टा नवजिष्टपपायगो नोधाम् विश्वपदयशोधाम् पुरोपमकामकर्षपोषे स्यात्सवीरो वीरैर्भे त्वाद्यस्य होदर्जिण होदायक्षद्वरस्पजमुकामस्त्रभिजोजोष्टारं शशमण्डलः स्वदात्स्वशीर्दधात्रेवो देवेभ्यो हव्याभाभेत्वाद्यस्य ोता यक्षदग्नि स्वाहाज्ञस्य स्वाहा मेतुरस्वाहा स्वाहा स्वाहायुतेनाग स्वाहा स्वाहा देवायुम् आज्यमान् स्वाहाग्होत्राग्य अर्ग्यस्य वियन्तु होदरेण समिर्धो ोऽतः कविरसि प्रचेताः कनोनपान् मध्वासमञ्जन्वानिधेतुरबन्धन् हे वद्राजगमह्यध्वरन्नः मयमानमेषाम् एनस्य यज्ञैः हे सुकृतपश्विजयोऽभिगन्धाः वदन्तु भयादिहव्या आयुक्वानये आया आयाः यज्ञे मुजुभिः सजोगाः तम् देवानाभेष् प्रहोताः सगेतो प्राचीनम् परिषार्थिव्याः वस्तोरस्याविद्यते अग्रे अह्नाः ब्यप्रसदे वितरम् वरीयः देवेभ्यो अजुदये स्योणम् विदस्वजेर्विजा विश्वयन्ताभ्यो नजलयः शुम्भमानाः हे वेद्वारो बृहदेव विश्वमिन्दाः हेमेभ्यो भवसुप्रायणाः आशश्वयन्ते जने पुपागे नकासान्योनौ दिव्ये योषणे बृहते तुमे अशिष्यकंसु कपिषन्दसाने हे व्याहोताराः प्रथमासुपाजाः यज्ञम् मनुषा विदध्यै प्रचोदयन्ता विदथे प्राचीरञ्जोजप्रतिशाढ्यन्ताः आनो यज्ञम् भारते योजयमेदो इडामनश्वरयन्ते दे। तिस्रो देवेर्भैरेवस्योनाम् सरस्वते स्वपदः सदन्तोनित्रे रूपैरपिकंसद्भुवनानि विश्वाः देवम् दष्टालमधिलक्ष्य विद्वान् उपापशित्मन्यासमञ्जन् देवानाम पादरुधा हवेंशे वनस्पतिशमिता देवो अग्नेः वदन्तु हव्यम् मधुनाभितेन सद्यो जातोऽप्यमीनयज्ञम् अग्निदेवानाम् भवत्वलोगाः अस्य होगप्रदर्शितस्य भागे स्वाहागतकम् ह्यदन्तु देवाः अग्नितहोतानो अध्वरे या त्यज्ञेण धेरिमा आदेवे शुक्रयोदश हरिवाजमलः कविः अग्निर्हव्यान्यक्रमेण दशक्रत्राणिदासुजेः अरेरग्निः अधनद्वाजन्ये देवो देवेभ्यो हव्यावान् प्राञ्जभिरिशिन्वानः जैनाभिः कल्पमाणः यज्ञस्यायप्रदिनन्प्रेष्य भवतः हव्या देवेभ्यः माता मन्यता अनुविदा अनुभ्यातासगर्भ्यः अननुः वेजेनागम् ता अस्य वतो निधत्तात् सो यम् चक्षुर्गमय पादम् प्राणमण्डलसिजनात् त्रिश्रोत्रम् अन्तरे क्षमसम् पथिपेदम् शरीरम् एकथा स्यत्वजमाक्षात् पुराणाभ्यामुत्खिदतात् अन्तरे वानम् भारयतात् शयणमस्य पक्ष कृणतान् श्रहो सदा दोषणे पश्यपे वामे कवशोरोऽस्य क्षीवन्ता षडिकंशजरस्य मङ्क्रयः ताः वयतान् गात्रम् गात्रमस्या नूनम् कृणुतान् गोवध्यरोऽहम् पार्थिवम् कणुतान् अस्तारक्षस्तकंशजतान् अनिष्टमस्य माराविष्टा पुरोगम् मन्यमाणाः नेद्वस्तोकेतनये अवितारवच्छमितारः अध्यगोचमेध्वम् शषभिषमेध्वान् शमेध्वमध्यो अध्यपुश्चापापश्च उभौ देवानागं समितारोः तामिमम् पशुगश्रपयताम् प्रभृद्वागो यथा यथा शश्रपणम् तथा तथा दुशस्वशस्तमम् अजो देवसहस्तमम् अव्यायक्वान् आसने इमम् नारज्ञमुपते विधेः इमाहव्याजातवेदोजनस्य स्तोकानामग्ने त्वसमो निहत्य घृतवन्तत्वावगजे श्लोकाश्चोदन्त्यमेतसः स्वधर्मम् देववीतये श्रेष्ठन्नोभिवार्यम् अभ्यग्स्तोकाशतश्चितः अग्नेऽभिप्रायसन्त्य ऋषिश्रेष्ठः समिद्धजे यज्ञस्य प्रापिता भव अभ्यग्श्चोदन्त्यध्रिगो सजीवः श्लोकासो अग्नेर्मेतसो कविशस्थ भी कताुना हव्यास्वेरांतेमे सोदंकिसोकाशो आवृत्रहृत्रह सुश्मने अग्नेस्में बायामेतसः विषयतागम् हविःर्यक्षन् मनसा वस इच्छन् इन्द्राज्ञे ज्ञासबुतवासजातान् नान्यायवस्तमह्यम् स वायम् वा ह्यन्ते मदक्षम् होदायक्षदिन्द्राग्ने पुरोस्य विषयदागम् हविः हो दर्यगा त्वामीरते अजन्तो हत्याय अविष्पन्तस्यन्वानुषासः यस्य देवे राम्प्रतिमिच्छमानः इन्द्रास्तरन् न्तः नमस्यामस्ते गोतमरजमः अगम्ब्वन्नवनस्य नाभ्यम् प्रथमा वना अस्याविः सह विश्वस्मेदः से सहभ्यैराषयन्येद्यः सन् तन् पालनः प्रसमन्दे वयन्तः महोरायन्तो अनुग्मन् व्रे वयन्तम् बहुभेव संव्येः ते लेन्द्रागृहांसो अनुग्मन् पृषन्तमग्न्तरिशतम् पृहन्तम् पमान्तम् विश्वः दे दिवागुंसम् वदन्ते नमसा नवसा प्रियन्तः श्रवस्य वश्रवः वर्णवत्रम् नामानि चतुतिथे यज्ञाने भद्रायाहन्तरणेन सन्दृष्टौ त्वाम् वर्धन्ति क्षिणः पृथिव्याम् तन्त्वावयन्तमादिवागुंसम् उपाज्ञाधो नमसा सुम तन्त्वायगुंसुधेवानव्यमग्ने सुम्नायव हीमहे वयन्तः योद्यानः दिवृतावचनेन विशालिकविश्वतीनाम् विभवचनम् वटपञ्चर्षणीनाम् प्रेतेषिणविषयन्तम् पावकम् के कारणना सोवर्गे समे समाहुरी पेवेदा नमो भे। पे महें भी सामना अस्वुमिहे विधेम नमो स हे वेदेशो नोक पाते भद्रा जागुम सतो आय सरोज से भाषा रोभिश्च श्रवस्य स्वरुत्रः बृहद्भिरमाधे स्तविरेभिरस्मेद्भिरग्ने विभाहित्यस्मे भूरितपकायतनिराय वस्पः ओर्वे बृहतीराजे अघाः अस्मे भद्रासो श्रवसानि सन्तो पुरोग्ने पुरुधा त्वाया वसूनिरागन् वसुधा च अस्याम् पुरोनिषद्गे पुरुवारसन्ति आज्ञे वसुविधरे राजनित्वे आभरणम् शिक्षतम् वज्रबाहुः अस्माक्याः सौर्यस्य एभिः स वित्तम् विगदा नारिह्न छागस्य हविषः तामद्य मध्यतमेत उद्भम् पुराग्नेषः पुरापौरुषे इय्याविभः हस्तान्नूनम् घाते अग्राणाम् योधप्रसवानाम् सुमक्षराणाम् शरुदयाणाम् अग्निष्पात्तानाम् पीवोपवसनानाम् पार्श्वना पदमुत्साधनः अङ्गारङ्गारवत्तानाम् करदयन् हवेः देवेभ्यो वनस्पदे हवे हिरण्यवर्णप्रतिवस्ते अर्थम् प्रदक्षिणेत्रश्रया यूज क्षपतिभेर यतेन्द्राग्मानि यत्र वनस्पतेः प्रियापाशा यत्र जयमानामाजमानाः प्रियाधामानि यत्राज्ञे प्रियाधामानि अत्र इदम् प्रस्तुत्येव प्रस्तुत्येव पावस्रक्षते स्पतिः विगरागम् हविः होदलिवागम् विद्वागम् ऋतोदेह ए्याभिरग्नेत्रेणामस्यायजिष्ठः होराक्षरज्ञस्वक्षकृतम् अयादग्निन्द्राग्निगस्य हविडप्रिया अयात्मनस्पदे अया देवाना यक्षदग्ने यक्षम् महिमानौ आयुषदामे ध्यायुधः कृणो मध्वरादवे लालाः द्विषदागम् हविः यजा उपोहयद्विषतम्भाजनागोः क्षमानाः अर्वन्तोनकाष्ठान्नक्षमाणाः इन्द्राग्ने वनस्पते विद्वान् वत्त्रादिताग्ज्ञरिन्द्राग्निगच्छागश्च हविनप्रिया रामाणि अयाद्मनस्पतेः प्रियापासागंसे अयाः देवानामाजमानः प्रियासामाने यक्षदग्ने प्रियासामाने यक्षस्वम् महिमानौ आयधतामेऽद्याविदः कृणो विशोहध्वरातवेदाः विषदागम् हविः विश्वस्य मतः पादविजो जैवेष्टविं विः नायता महिलाभ्योः अनुज्ञा हेष्ठयाते अद्या देवं वरेश्वदेवम् देवे स्यात् सुवीरम् वीरे प्रभृजेता यन्यान् राजा परेश्वरसामदेव सुमने बुद्ध्येयस्य वेदेव हेरे अद्वारः सङ्घाते विग्रेयम् जामञ्जिजा दृपादेव भोतो वत्सगी मे नारुणामिवीया कुमारो मानवजामे नार्वा रे दुर्गाकप्रणक्मसुवने बुधेयस्य वियन्त्रेण हे रेषासानकाभ्यात्मयज्ञे प्रयत्यक्वे धामपि गोमनन्दै वे प्राया दृष्टा ष्टे वसुरेयोरन्याघागम् त्रियोषसुभार्या निजमानाय वसुमय मृधेयस्य मेताय हे मोर्जाहुतेषमोर्जमन्यावक्षिकम् समेजुमन्यामवेर्बन्धयमानास्याम पुराणे नवन्तामोर्जमोर्जाहुते मोर्जयमाने अधाताम् मृधेयस्य वेताय ष्टारापोतारा हताश वा भरद्वसो वसुवने मधुधेयश्च वेदाङ्गीरष्टिस्वस्तिस्वदेवी सरस्वदे भारवेद्याम्भारत्यादित्येरस्तक्षरस्वदेवनो रुद्रे वासुमत्या सुधमानम्पेण वसुवने मधुधेयश्च विङ्कय देवो न राजगुण्डस्तृशेषासु प्रिभिरुणे तस्य क्रमरभृहस्परिस्त्वमश्विनाध्वर्यमङ्गेयस्य वेदेन देवोपनस्पतिहप्रावाघ्यामक्रेणास्वक्षतान्तरिक्षम् मध्येण प्राप्पृथे वरेणा विमुभेत्मधुवने बुधेयस्य वेदेन ेवम् हरिहर्वादिनाम् विशेषाभिप्रच्युतेनामप्रच्युतम् निकामधर्मम् पुरस्पाठम् यस्परेण्यायश्च देव अज्ञस्पृष्टगच्छमिनामन्धः कविः सत्यमन्मायदेहो ताहो दुरहोग्नेयान् देवानयागमविहोत्रेच्छाग्नेहो लाभो मृधेयस्य नामो वाचेण देवम् बहिः पसुमने मृधेयस्य वेदो ेवी द्वारः वसुमने वृधेयस्य वियन्तु हेली उषासानकारः वसुमने वृधेयस्य वीताम् हेलीजोष्ट्रेः वसुमने वृधेयस्य वीताम् हेली ओर्जाहुजे वसुमने वृधेयस्य वीताम् देवादे व्याहोतारः वसुमने वृधेयस्य बीताम् देवे स्तिष्वस्तिस्व देवेः असुमने वधेयस्य वियन्तो देवो नाशगंसः असुमने मध्येयस्य वेदो देवो वनस्पतिः असुमने अध्येयस्य वेदो देवम् बलहर्वारिनाध्येयस्य वेदो देवो अज्ञस्पष्टकचुद्रविणा मन्दः कविः सत्यमन्मा यजीहोदाो तदहोदय यागम् अभिप्रेः एते होत्रे मत्सदा तागुम् सविषयम् होत्राम् देवम् गमाम् इति देवेषु यज्ञमेत एवम् शिष्टकृत्या भूः तस्मदेव गृहेयश्च नमो भाग्येवी अज्ञमद्य होदालवणे तारिं यजमानः पजन्तु भक्ते बध्जन्निन्द्राग्निर्भ्याच्छागं सोपस्थाद्य देवो वनस्पतिरफलीन्द्राग्निभ्याञ्चाघेनाधस्तान्तं मे नष्टप्रतिभजताग्रभे श्यामवे सेतान् पुरोणा वेणत्वारिभे दृढेणान्नवणेदायिङ्गजमान रघोद्भ्यादङ्गदेशमे देवे शुभसुकार्याय च रैताय देवितश्च प्रेषितमार्गस्योक्तमाकार्यसोक्त ब्रूहि